घनम् इडा देवहूर्मनुः इडा देवहूर्देवहूरिडेडा देवहूर् मनुर्मनोर्देवहूरिडेडा देवहूर्मनुः देवहोर् मनोर् मनोर्देवहोर्देवहोर् मनोर्यज्ञ निर्यज्ञोर्देेवहोर्देवहोर् मनोर्यज्ञनिः देवहोरिधि देवोः मनोरज्ञ निर् यज्ञ निर् मनोर् मनोरज्ञानिर् बृहस्पतिर् बृहस्पदेर् यज्ञर् मनोर् मनोरज्ञानिर्बृहस्पतिः यज्ञ निर्बृहस्पतिर् बृहस्पतिर् यज्ञ निर् यज्ञर्बृहस्पति रुग्धा मदा न्युग्धा मदानि बृहस्पतिर्यज्ञनिर्यज्ञनिर्बृहस्पतिरुग्धा मदानि यज्ञनिरिधि यज्ञनिः बृहस्पति रुग्धा मदान्युग्धा मदानि बृहस्पतिर्बृहस्पति रुग्धा मदानि शगुं सिषच्चगुं सिष दुग्धा मदानि शगुं सिर्षच्छगुं सिर्षदुग्धा मदान्युग्धा मदानि शगं सिर्षद्विश्वे विश्वे शगं सिषदुग्धा मदान्युग्धा मदानि शगुं शगं सिर्षच्चगुं सिषदुग्धा शगुं सिषद्विश्वे विश्वे शगुं सिषदुग्धा मदान्युग्धा मदानि शगुं सिष्यद्विश्वे दुग्धा मदानी त्युग्धा मदानि शगं सिषद्विश्वे विश्वे शगुं सिष्यगं सिष्यद्विश्वे देवा देवा विश्वे शगं शिर्षगं शिर्षद्विश्वे देवाः विश्वे देवा देवा विश्वे विश्वे देवासूक्र वाच सूक्त वाचो देवा विश्वे विश्वे देवासूक्र वाचः देवसोक्द वाच सोक्त वाचो देवादेवासोक्दा वाचप्रथिवी प्रथिवी सोक्त वाचो देवादेवासोक्दा वाच प्रृथिवी सोक्त वाच प्रृथिवी सोक्तवाच सोक्त वाच पृथिवी माधर्मादपृथिवी सोक्त वाच सोक्त वाचः पृथिवी मादः सोक्त वाच यदि सूक्त वाचः पृथिवी माधर्माध पृथिवी पृथिवी मा धर्म माध पृथिवी पृथिवी मा धर्म मा धर्म मा धर्म धर्म माधर् मा धर्म मा हिगंशेर् हिगंशेर् मा हिगंसिः मा हे गम हे गमशीर मे गम माधो मधु हे गम माे गमशीर माध हे गम श माध माधव मधु मनुष्ये मनुष्ये मधुमधु मनुष्ये मधुमधु मनुष्ये मधु मधु मधु मनुष्ये मधुमधु मनुष्ये मनुष्ये मधु जनिष्ये जनिष्ये मधुमनुष्ये मनुष्ये मधु जनिष्ये मधु जनिष्ये जनिष्ये मधु मधु जनिष्ये मधु मधुजनिष्ये मधु मधुजनिष्ये मधु जनिष्ये मधु मधु जनिष्ये जनिष्ये मधु वक्ष्यामि वक्ष्यामि मधु जनिष्ये जनिष्ये मधु वक्ष्यामि मधु वक्ष्यामि वक्ष्यामि मधु मधु वक्ष्यामि मधु मधु वक्ष्यामि मधु मधु वक्ष्यामि मधु वक्ष्यामि मधु वक्ष्यामि वक्ष्यामि मधु वदिष्यामि वदिष्यामि मधु वक्ष्यामि वक्ष्यामि मधु वदिष्यामि मधु वदिष्यामि वदिष्यामि मधु मधु वदिष्यामि मधुमदीं मधुमदीं वदिष्यामि मधुमधु वदिष्यामि मधुमदीं वदिष्यामि मधुमदीं मधुमदीं वदिष्यामि वदिष्यामि मधुमदीं देवेभ्यो देवेभ्यो मधुमीं वदिष्यामि वदिष्यामि मधुमतीं देवेभ्यः मधुमदीं देवेभ्यो देवेभ्यो मधुमदीं मधुमदीं देवेभ्यो वाचं वाचं देवेभ्यो मधुमदीं मधुमतीं देवेभ्यो वाचम् मधुमतीमिति मधुमतीं देवेभ्यो वाचं वाचं देवेभ्यो देवेभ्यो वाचमुद्यासमुद्यासं देवेभ्यो देवेभ्यो वाचमुद्यासं वाचमुद्यास मुद्यासं वाचं वाच मुद्यासगं शुश्रोषण्यागं शुश्रोषण्या मुद्यासं वाचं मुद्यासगं शुश्रोषण्या उद्यासगम् शुश्रोषण्यागम् शुश्रोषण्यामुद्यासमुद्यासगम् शुश्रूषण्यां मनुष्येभ्यो मनुष्येभ्य शुश्रोषण्या मुद्यासमुद्यासगं शुश्रूषण्यां मनुष्येभ्यः शुश्रोषण्यां मनुष्येभ्यो मनुष्येभ्य शुश्रूषण्यागुम् शुश्रोषण्यां मनुष्येभ्यस्तं तं मनुष्येभ्यः शुश्रोषण्या गुं शुश्रोषण्यां मनुष्येभ्यस्तं मनुष्येभ्यस्तम् तं मनुष्येभ्यो मनुष्येभ्यस्तं मा मनुष्येभ्यो मनुष्येभ्यस्तं मा तं मादं तं मा देव मादं तं देवाः मा देवा देवा मा मा देवा अवन्त्ववन्दो देवा मा देवा अवन्तु देवा अवन्द्वन्दु देवादेवा अवन्तु शोभायै शोभाया अवन्तु देवादेवा अवन्तु शोभायै अवन्दु शोभायै शोभाया अवन्द्वन्धु शोभायै पिदरपिदरशोभाया अवन्द्वन्धु शोभायै पिदरः शोभायै पिदरपिदर शोभायै शोभायै पिदरोऽन्वनुपिदर शोभायै शोभायै पिदरोनु पिदरोन्वनुपिदरपिदरोनु मदन्तु मदन्द्वनु पिदरपिदरोनुमदन्तु अनु मदन्तु मदन्द्वन्वनुमदन्तु मदन्त्विदि मदन्तु हरिः ॐ कृष्णयजुर्वेदीय तैत्तरीयसंहिता चमकखनपाठसमाप्तः श्रीरस्तु शुभमस्तु